गरुडपुराणम् आचारकाण्डम् अध्यायं 186 अण्ड् एय्टि सिक्स् हरिरुवाच पीदसारो गुडूच्याश्च मधुना च प्रमेहनुद पीदं गोहालिकामूलं तिलदध्याज्यसंयुधं निरुद्धमूत्रं क्वथितं निवर्तयदि तथाहि काम्भरेत्पीदं सौवर्चलयुतं च वै गोरक्षकर्कडीमूलम् पिष्टं शीतोदकेन च पीदम् दिनत्रयेणैव नाशये रुद्रशर्कराम् पिष्ट्वा वै ग्रीष्मकाले समाहितं साधितम् गदुग्धेन पदीं शर्कस्यान्वितं हरेन्मूत्रनिरोधं च हरेद्वै पाण्डुशर्करां द्वि जयष्ट्याश्च वैमूलं पिष्टं तण्डुलवारिणां गण्ठमालां हरेर्लेवादसाध्यं गलगण्टकम् रसाञ्जनं हरिदख्याश्चूर्णं तेनैव गुण्डनाद नाशयेत्पुरुषो व्याधिन्नात्रकार्या विचारणा करवीरमूलेपद्वैलेपात्पूगफलस्य च पुंव्याधिर्नश्यति रुद्रयोगमन्यं वदाम्यहं दन्दिमूलं हरिद्राज चित्रकन्दस्य लेपनाद् भगन्तरविनाशस्याधन्यं योगं वदाम्यहम् जलौका जग्धरकृतश्च भगन्तरमुमापदे त्रिपला जलकृष्टञ्च मार्जारास्तिविलेपितं ततो न प्रस्त्रवेद्रकृतं नात्र कार्या विचारणा हरिद्रनेकज स्नुह क्षीरेण भावि वडी काश्यो विनाशा तल्लेदृषभल सैंधव जिष्वा चाश्योहरंपर वव्याज्यम साधीदंपीदम पला च्षार विणा त्रिगुणेन त्रिकटुकम् अर्षां शिक्षपये चिव बिल्वस्य च फलं दग्धं रक्दार्षः प्रविनाशनं जग्ध्वा कृष्णतिलानेव नवनीदयुधानी शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम् अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज शुण्ड्या चक्वथितं वारिपीतं चाग्निं करोति वै हरितकीं सैन्तवञ्चचित्रकं रुद्रपिप्पली चूर्णमुष्णोदकेनैषां पीदं, पीदं चादिक्षुधाकरं साज्यं सूकरमांसं वै दिक्षुधाकरम् इति श्री गारुडे महापुराणे आचारकाण्डे षडाशीत्यधिकशतमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् एय्टि सेवेन् हरिरुवाच हस्तिकर्णपलाश्वस्य पत्राणि चूर्णयेत् धर सर्वरोगविनिर्मुक्तम् चूर्णं फलशदम् शिव सक्षीरं भक्षिदम् कुर्यात् सप्ताहेन वृषध्वज नरं श्रुति धरम् रुद्र मृगेन्द्रगदिविक्रमम् पद्मरागप्रदिकाशम् युक्तम् दशशदायुषा षोडशाब्दाकृतिं रुद्र सततं दुग्ध भोजनाद मधु सर्पि समायुक्तं दुग्धमायुष्करं भवेद तज्जग्धं मधुना सार्धं दशवर्षसहस्रणं कुर्यान्नरं श्रुतिधरं प्रमादाजनवल्लभम् दध्ना नित्यं भक्षितन्तु वज्रदेहकरं भवेद केशराजिसमायुक्तम् नरं वर्षसहस्रिणं तच्च काञ्चिकसंयुक्तम् नरं कुर्याच्च भक्षितं शतवर्षं दिव्यदेहं वलीपलिदवर्जितम् जग्धम् त्रिफलया क्षौद्रम् चक्षुष्मन्दम् करोति वै अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणाद महिषी क्षीरसंयुक्तस्थलेपकृष्णकेशृद कल्वाडस्य च वैकेश्या भवन्ति वृषभध्वज तैलयुक्तेन चूर्णेन वलीपलितनाशनम् तदुद्वार्तमात्रेण सर्वरागप्रमुच्यते सच्चागक्षीरचूर्णेन दृष्टि स्यान्मासदोञ्जनाद पलाशस्य च बीजानि श्रावणे विदुषाणि च गृहीत्वा नवनीतेन तेषां चूर्णं च भक्षयेद् कर्षार्धमेकं सेवेद नत्वा नित्यं हरिप्रभुं पुराणषष्टिधान्यस्य पद्यमम्बुपिबन्हर जीवेद्वर्षसहस्राणि वलीपलितवर्जितः भृङ्गराजस्य वै मूलं पुष्यार्क्षेदु समाहृदं तस्य चूर्णं वै ससौवीरञ्जभक्षयेदम् मासमात्रप्रयोगेण वलीपलितवर्जितः शदानि पञ्च जीवे च नरो नागबलो भवेद भवेच्छ्रुदिधरोरुद्रपुष्यार्क्षे चैव भक्षणाद इद श्री गारुडे महापुराणे आचार्यकाण्डे आयुष्करयोगो दृ सप्ताशीत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् हरिरुवाच निर्व्रणस्यात् पूयम् हीनो प्रहारो कृपूरितः अपामार्गस्य वैमूलम् हस्ताभ्याम् च विमर्दितं तद्रसेनप्रहारस्य रक्तस्त्रावो न, न पूरणाद रुद्रलाङ्गलिकमूलं चेक्षो दर्भस्तथैव च तेन व्रणमुखं लिप्तं शल्यं निःस रतिव्रणाद चिरकालप्रविष्टोपि तेन मार्गेण शङ्कर बालमूलं मेषशृङ्गीमूलं वा वारि करुषितं तेन चिरं जातं व्रणं नाड्या जग्धमाहिषपध्ना च युक्तम् कोद्रवभक्तवम् हिङ्गुमूलस्य वैचूर्णम् दत्तम् नाडीव्रणापहम् ब्रह्मयष्टिफलम् पिष्टम् वारिणा तेन लेपितम् तेन कृष्टं रक्तदोषप्रणश्यदिनसंशयः यवभस्म विडङ्गश्च गन्धपाषाणमेव शुण्ठिरेषाञ्चैव चूर्णं भित्त्वं रुधिरेण वै कृकलासस्य तल्लिप्तं विद्रधिं नाशयेव सौभाञ्जनस्य बीजानि त्वदसीमसिना सः सौरःसर्प सौरसर्षपयुक्तानि सर्वाण्येदानि शङ्कर पिष्टान्यनाम्लतक्रेण ग्रन्थिकम् नाशयद्धि वै पिष्टं तण्डुलवारिणा तेन नस्य प्रदाना स्याद् विद्रवः अगस्त्य पुष्पनस्यं वै समरीचम् तु शूलहृद भुजङ्गचर्म वैहिङ्गु निम्बपत्रं तथायवाः गौरसर्षमयेभिः स्याल्लेपो भूदहरः शिव गोरोचनामरीचानि पिप्पली सैन्धवं मधु अञ्जनं कृतमेभिः स्याद्ग्रहभूदहरं शिव गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहरो भवेद् चातुर्धिकज्वरैर्मुक्तो कृष्ण वस्त्रावगुण्ठितः इति श्रीकारुणे महापुराणे आचारकाण्डे व्रणाकेदृ माष्ठाशीत्यधिक शततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् एय्टी नैन् हरिरुवाच श्वेदापराजिदात्पुष्परसेनाक्ष्णाश्च पूरणे पडलम् नाशमायादिनात्रकार्याविचारणा मूलम् गोक्षुरकस्यैव चर्वित्वा नीलोहित दन्तकीडव्यधनस्य सुरासुरविमर्दनन् नारीपुष्पादिनेपीत्वा गोक्षीरेणोपवासदः स्वेदार्कस्य तु वैमूलम् तस्यात् तद्गुल्म शूलनत् श्वेदार्कपुष्पम् विधिना गृहीतम् पूर्वमन्त्रितम् ऋदुशुद्धा च ललना कटौ बद्ध्वा प्रसूयते हस्तबद्धम् पलाशस्य अपामार्गस्य वाहर मूलं सर्वज्वरहरं भूतप्रेदादिनुद्भवेद पीदं वृच्छिकमूलञ्च प्रादः पर्युषितात् बुना सार्धं विनाशयेदारञ्च परमेश्वर शिखायाञ्चैव तद्बद्धं भवे दैहाकिकानुद पीदम् पर्युषिदाद्भिश्च भवेत् सर्वविशापहृद यस्य लज्जालुकामूलं दीयते च स्वरेतसा सार्धं सवैरं संव्याधि पुमान् स्त्रीवानसंशयः पिष्ट्वा गव्यकृतेनैव पाठामूलं पिबेतु यः सर्वं विषं विनश्ये च नात्रकार्या विचारणा मूलं पर्युषितोदेन शिरीषस्य यथा तथा रक्त चित्रकमूलस्य रसस्य भरणाद्धर कर्णयो कामलाव्याधिनाशस्यान्नात्र संशयः श्वेदकोकिलाक्षमूलं शागीक्षीरेण संयुतं त्रिसप्ताहेन वैपीदं क्षयरोगं क्षयं नयेध नारिकेलस्य वै शागक्षीरेण संयुधम् पिबेच्छ त्रिविधस्तस्य रक्तवादो विनश्यति कुल्यात् सुदर्शनमूलम् माल्येन सुसमाहृदम् कण्ठबद्धत्र्याहिकादिग्रहभूतविनाशनम् पुष्पम् धवलगुञ्जाया गृहीतं मूलमेव च मुखे दुनिहितं रुद्रहरेन्नाविषम् बहु अष्टे बद्धं कण्ठयुक्तं कण्ठे बद्धं ग्रहादिहृद कृष्णायां तु चतुर्दश्यां कडिबद्धं समाहृदं सिंहादिष्वापदाद्भीधिं हरे च नीलोहित विष्णुक्रान्तामूलमीशकर्ण बद्धन्धुधारयद पट्टसूत्रेण भूतेश मकरादिभयं न वै इति श्रीगारुडे महापुराणे आचारकाण्डे एकोननवत्यधिकशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् नैण्टि हरिरुवाच अपराजिताया मूलञ्च गोमूत्रेण समन्वितं पीतञ्चाशु हरत्येवकण्डमालां न संशयः अधयन्त्रवारुणीमूलं विधिना पीदमीश्वरा जिङ्गिण्यैरण्डकरुद्र शूक शिम्ब्या समन्वितं शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यधां हरेद माहिषं नवनीतं अश्वगन्धा च वचा कुष्ठद्वयं लेपो लिंगत्रो लिङ्गस्रोदस्तनार्तिहृद कुष्ठनागबलाचूर्णं नवनीतसमन्विधं तल्लेपो युवदीनां च कुर्याद्वृत्तो जगौ शुभौ इन्द्रवारुणिकामूलम् यस्य नाम्ना सुदूरदः निहिक्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति पुनर्नवाया शुक्लाया मूलम् तण्डुलवारिणा पेदम् विद्रधि नुत्साच्य पेदम् विद्रधिनुत्स्याच्च नात्रकार्या विचारणा कदलीदलक्षारन्दो पानीयेन प्रसाधितं तस्य धनाद्विनश्यन्ति उदरव्याधयोऽखिलाः कदल्यामूलमादाय गुडाज्येन समन्वितम् अग्निना साधितं जग्धमुदरस्तकृमिन्हरेद नित्यम् निम्बदलानां चूर्णमामलकस्य च प्रत्यूषे भक्षय चैव तस्य पुष्ठं विनश्यति हरीतकी विडङ्गं च हरिद्रासिदसर्षपाः सोमराजस्य मूलानि करञ्जस्य च रौन्धवं गोमूत्रपिष्टान्येदानि कुष्ठरोगहराणि वै एकश्च त्रिफला भागस्तथा भागद्वयम् शिवा सोमराजस्य बीजानाम् जग्धम् पद्येन ददृनुद अम्लतक्रम् सगोमूत्रम् क्वथितम् लवणान्वितम् कांस्य कृष्टम् करम् लेपात् कुष्टद्रुविनाशनम् हरिद्राहरितालश्च दूर्वा गोमूत्रसैन्धवम् अयम् लेपो हन्ति दद्रुम् पामानम् च तथा सोमराजस्य बीजानि नवनीतयुतानि च मधुना स्वादितानि श्वेता पराजिदामूलम् वर्धितम् चास्यवारिणा तल्लेपोरुद्रमासेन शुक्लपुष्ठविनाशनः माघिषम् नवनीतम् च सिन्धूरम् समरीचकम् पामा विलेपनान्नश्ये दुर्नामा वृषभद्वजा विशुष्कगाम्भारी मूलं पक्वं क्षीरेण संयुधं बक्षिदं शुक्लपित्तस्य विनाश्य करमीश्वर मूलकस्य दुबीजानि ह्यपा मार्गरसेन वै पिष्टानि तेन लेपेन सिद्धमगं रुद्र नश्यदि कदली सिद्धमकापः रम्भापा मार्गयोः क्षारयेरण्डेन विमिश्रितः तदभ्याङ्गान्महादेव सद्यसिद्मविनश्यदि कूष्माण्डनालक्षारश्च स गोमूत्रश्च तत्त्वदः जलपिष्टा हरिद्रा च सिद्धा मन्दानलेन हि माहिषेण पुरीषेण वेष्टिता वृषभध्वज अस्या उद्वर्तनम् कुर्या दङ्गसौष्ठवमीश्वर तिलसर्षपसंयुक्तम् हरिद्राद्वयकुष्टकम् तेनोद्वर्तितदेहस्य दुर्गन्धसुरभित् पुमान् मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाय अर्जुनस्य दुपुष्पाणि जम्बूपत्रयुतानि च स्थलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेद युक्तं लोध्रभवैर्नो रायिश्चूर्णन्तु कनकस्य च तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका दुग्धेनो शशिसेकश्च कर्मदोषश्च नश्यदि काकजङ्घोद्वरुदनन्दु ह्यङ्गरागकरं भवेद मधुयष्टिशर्करा च वासकस्य रस्सो मधु यदत्पेदं रक्तपित्तकामाला पाण्डुरोगनुद रक्तपित्तं हरेत् पीतो वासकस्य रस्सो मधु प्रातःकाले तोयपानात् पीनः सं दारुणं बिभेदकस्य वैचूर्णं पिप्पल्या सैन्धवस्य च पीतं सकाञ्चिकं हन्दिस्वरभेदं महेश्वर चूर्णं मामलकं सेव्यं पीतं गव्यपयोन्वितं मनःशिला बलमूलं कोलपणजगुग्गुलोः जातिपत्रं कोलपत्रं तथा चैव मनःशिला येभिश्चैव कृता वर्धिर् बदर्याग्नौ महेश्वरा धूमपानं का सहरं नाथकार्या विचारणा त्रिभला पिप्पलीचूर्णं भक्षितं मधुनायुधं भोजनादौ हि समधु पिबासा ज्वरितं हरेद बिल्मूलञ्च समधु गुडूची क्वथितं जलम् पीतं हरे च त्रिवधम् चर्दिं नैवात्र संशयः पीता दुर्वाच्छर्दिनुत्स्यात्तिष्ठा तण्डुलवारिणा इति श्रीगारुडे महापूर्णे आचारकाण्डे नवत्यधिकशततमोऽध्यायः ओम् अध्यायं ओम। हण्ड्रेड् एण्ड् नैण्टी वन् हरिरुवाच पुनर्नवायामूलम् च श्वेदम् पुष्ये समाहृतम् वारिपीदम् तस्य पार्श्वभुवनेषु न पन्नगाः तार्क्ष्यमूर्तिम् वहेद्यो वैभल्लूकदन्तनिर्मिताम् सपन्नगैर्नदृश्येदयवजीवमृषध्वज पिबे छल्मलीमूलम् यः पुष्यर् क्षे रुद्रवारिणा तस्मिन् नपास्तदशना नागाश्युर्नात्र संशयः पुष्य लज्जालुकामूले हस्तबद्धे दुपन्नकान् भृह्णीयाल्ये पदो वापि नात्रकार्याविचारण पुष्ये श्वेतार्कमूलम् दुपीदम् शीदेन वारिण नश्येदु दंशकविषम् करवीरादिजम् विषम् महाकालस्य वै मूलम् पिष्टम् तत् काञ्चिकेन वै व्रोडाणाम् डुण्डुभानाम् च तल्लोभो हरदेविषम् तण्डुलीयकमूलम् च पिष्टम् तण्डुलवारिणा कृतेन सह पीदम् दुहरे सर्वा विषाणि च मीलीलज्जालुकामूलम् पिष्टम् तण्डुलवारिणा पीतम् तद्दंशविषम् नश्ये देगेन बोभयोः कूष्माण्डकस्य स्वरसुडः सह शर्करः पीत सदुघ्दोहन्याश्च दंशकस्य विषं च वै तदा कोद्रवमूलस्य मोहस्य हर एव च यष्टे मधुसमयोक्ता तथा पीता च सदुग्धा च त्रिरात्रेण मूषकानां विषं हरेद चुलुकत्रयपाना च वै ताम्बूलदग्धमुखस्य लालास्त्रावो विनश्यदि हृदं सशर्करं शीत्वा मद्यपानमदो न वै कृष्णाङ्गोलस्य मूलेन पीदं जलं तदो नश्यद्गरविषं त्रिरात्रेण महेश्वर उष्णं गव्यघृदं चैव सैन्धवेन नाशयेत्तन्महादेव वेदनां वृचिकोद्भवाम् कुसुभं कुङ्कुमं चैव हरिदालं मनशिलां करञ्जम् पिषिदं चैव ह्यर्कमूलं च शङ्कर विषं नृणां विनेश्येत्तु ये देशां भक्षणा शिवां दीपतैलप्रदानाच्च दंशैराकीडजैशिव खर्जूरकविषं नश्ये तदा वैनात्र संशयः दंशस्थानं मृच्छिकस्य शुण्डीतगरसंयुधा नश्येन्मधुमक्षिकायाये देषां लेपतो विषं शतपुष्पाः सैन्धवञ्जसाज्यं वा शिरीषस्य दु बीजं वैसिद्धक्षीरेण घर्षितम् तल्लेपेन महादेव नश्येत् कुक्कुरजं विश्रं ज्वलिताग्निर्वारिसेको तथा दर्दुरजं विश्रम् दत्तूरकरसोन्मिश्रं क्षीराद्य कुडपानदः शूनां विश्रं विनश्ये तु शशाङ्काङ्गितशेखर वडनिम्बशमीनां च वल्कलैक्वदिदं जलं तस्येकान्मुखदन्दानां नश्ये द्वै विषवेदनां लेपनाद्देवदारोश्च गैरिकस्य च लेपनाद् नागेश्वरोरदरिद्रे द्वे तथा मञ्झिष्टकाहर येभिर्लेपद्विनश्ये तु लूधा विषमुमापदे करञ्जस्य दुबीजानि वरुणश्चतमेव च पिलाश्च सर्षपाहन्युर्विशं वै नात्र संशयः कृतं कुमारीपत्रं वै दत्तं सलवणं हर तुरङ्गमशरीराणाम् कण्डोर्नश्ये दशाहदः श्री गारुडे महापुराणे आचार्यकाण्डे एकनवत्यधिकशततमोऽध्यायः ओम् अध्यायम् 192 अण्ड् नैण्टि टु शूरणस्य च षोडश शुण्ड्या भागाश्च चत्वारो मरिचानां द्वयं तथा हृदयं पिप्पलीमूलं विडङ्गानां चतुष्टयम् अष्टौ मुशलिका भागास्त्रिभलायाश्चतुष्टयं द्विगुणेन गुडेनैषां मोदकानिघकारयेद तद्भक्षणमजीर्णं हि पाण्डुरोगञ्च कामलम् अधिसारांशमन्दाग्निं प्लेहाञ्चैव निवारयेद बिल्वाग्निमन्द बिल्वाग्निमन्देनाक पाडलापारिभद्रकं बलाचादि बला चादिबलारास्ना श्वदंष्ट्रा पुनर्नवा यरण्डशारि वा पर्णो गुडुची कपि कच्छुकाः येषाम् दश फलान् भागान् क्वाधयेत् सलिले मले तेन पादावशेषेण तैलपात्रे विपाचयेद आजं वा यदि दत्त्वा च चदावरीं सैन्धवं चतैलतुल्यं प्रदापयेद्रव्याणि यानि पेक्ष्याणि तानि वक्ष्यामि तच्छृणु सद पुष्पादेव दाजुर्बलापर्णो वचा गुरु पुष्टमासीत् सैन्धवं च बलमेघं पुनर्न तदाभ्यङ्गे तैलमेदत्प्रदापयेद हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् अपस्मारं वादरक्तं वपुष्मांश्च पुमान् भवेद गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषीहर अश्वानां वादभग्नानां कुञ्जराणां नृणां तथा तैलमेतत्प्रयोक्तव्यं सर्ववादविकारिणाम् हिङ्गुतुम्बुरु शुण्डीभिः सिद्धं तैलं दुःसार्षपम् एधद्धि पुराणं श्रेष्ठं कर्णशूलापहं परम् शुष्कमूलकशुण्डीनां क्षारो हिङ्गुलनागरं तक्रं च दुर्गुणं दद्या तैलमे दद्विपाजयेद बाधिर्यं कर्णशूलं च पूयस्त्रावञ्च कर्णयोः कृमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् शुष्कमूलकशुण्डीनां क्षारो हिङ्गुलनागरं शतपुष्पावचाकुष्ठं धारुषि गुरसाञ्जनम् सौवर्चलम् यवक्षारं सामुद्रम् सैन्धवम् तथा ग्रन्थिकम् विडमुस्तम् च मधुशुक्तम् च दुर्गुणम् माधु लुङ्गरसत्यैव कदलीरसयवज तैलमेभिर्विभक्तव्यम् कर्णशूलापकम्बरम् बाधिर्यम् कर्णनादश्च पूयस्त्रावश्च दारुणम् पूरणादस्य तैलस्य कृमय सद्यो विनाशमायान्ति शशाङ्ककृतशेखर क्षारतैलमिदम् श्रेष्ठम् मुखदन्तमलापकम् चन्दनं कुङ्कुमम् मांसीकर्पूरं जातिपत्रिका जातिकङ्गोलपूगानां लवङ्गस्य फलानि च अगुराणि जकस्तूरी कुष्ठं तगरपादिका गोरोचना प्रियङ्गुश्च बलाचैव चैव तथा सरलं सप्तपर्णं च दाक्षा चामलगी तथा दा। तथा दुपत्मकं चैव ह्येदस्तैलं प्रसाधयेद प्रस्वेदमलनुर्गन्ध पण्डु कुष्ठहरं परम् गच्छति स्त्रिशतं रुद्रबन्ध्यापि लभते सुतम् यवानी चित्रगमधान्यम् त्र्यूषणम् जीरकम् तद्धा सौवर्चलम् विडगम् च पिप्पलीमूलराजिकम् येभिपजेद्रकृतप्रस्थं जलप्रस्थाष्टसंयुधम् तथार्शो गुल्मश्व यधुम् हन्तिवह्निम् करोति वै मरीचम् त्रिवृतम् कुष्ठम् हरितालम् मनःशिला देवदारुहरिद्रे द्वे कुष्ठम् मांसी चन्दनम् विशालकरवीरम् च अर्पक्षीरम् चकृद्रसह येषाम् च भागो विश्वस्यार्धफलं भवेत् प्रस्थं सडुकतैलस्य गोमूत्रेष्ठगुणे पचेद मृत्पात्रे लोकपात्रे वा शनय मृद्वग्निना पचेद पामा विचर्किकाचैव चैव ददृर्विस्फोटकानि अभ्यङ्गेन प्रणश्यन्ति कोमलत्वम् च जायते प्रभूतान्यपि श्वित्राणि तैलेनानेन ना मर्दयेत् चिरोग्द्धितमपि श्वित्रम् विनष्टम् तत्क्षणाद्भवेत् पडोलपत्रम् कडुगामञ्जिष्टा चारिवानिशा जादीश मी निम्बपत्रं मधुकं क्वधिदं कृदं ये भिर्लेभात् सयुररुजो व्रणा विस्त्रा विणशिव शङ्खपुष्पी वच सोमं ब्राह्मी ब्रह्म सुवर्चलाः अभयाच च गुडुची च यदै रक्षसमैर्भागैर्घृदप्रस्थं विभाचयेद कण्ठकार्यारसप्रस्थं क्षीरप्रस्थसमन्वितं यदद्भ्राम्य हृदं नाम स्मृतिमेधा करं परम् अग्निमन्थो वजावासा पिप्पली मधुसैन्धवं सप्तरात्र प्रयोगेण किन्नरैरिवगीयदे अपामार्ग गुडुजीजवाजाकुष्टं शदावरी शङ्खपुष्पाभयासाज्यम् विडङ्गम् भक्षितं समम् त्रुभ्यर्दिनैर्नरम् कुर्यात् ग्रन्थाष्टशधारिणम् अग्भ्यर्वा पयसाज्येन मास मे कन्दुसेविता वचा कर्या नरं प्राञ्चम् वचा कर्यान्नरम् प्राज्ञम् श्रुतिधारणसंयुधम् चन्द्रसूर्यग्रहे पीदम् फलमेकम् पयोन्वितम् वचायास्तक्षणं कुर्यान्महा प्रज्ञायुधम् नरं। भू निम्ब निम्बनिम्बत्रिफला पर्पणैश्च श्रुतम् जलं। पडोलीमुस्तकाभ्याम् च वासकेन जनाशयेद विस्फोटकानि रक्तञ्च नात्रकार्याविचारणा कथकस्य फलम् शङ्खम् सैन्धवम् त्रियूषणं वचाः फेनि रसाञ्जनं क्षौद्रम् विडङ्गानि मनः शिला येषां वर्तिर्हन्ति काचम् तिमिरम् पडलं तथा प्रस्तद्वयमाशकस्य क्वाधश्च द्रोणमम्भसाम् चतुर्भागावशेषेण तैलप्रस्थम् विपाचयेद् काञ्चिकस्याठकम् दत्त्वा पिष्ठान्येदानि दापयेद् पुनर्न वा वजा लवणम् सुरदारुश्च कण्डकारिका न स्यात्पानाद्धरत्येव कर्मशूलं सुदारुणं बाधिर्यं सर्वरोगांश्च ह्याभ्यङ्गाच्च महेश्वर फलद्वयं सैन्तवञ्चशुण्डी चित्रकपञ्चकम् सौवीर पञ्चप्रस्थं च तैलप्रस्थं प्रचेत्तदः असृद्धरस्वरप्लीहा सर्ववाद विकारनुद उदुम्बरं वडं प्लक्षं जम्बूद्वयमदार्जुनं पिप्पली जगदम्बञ्च पलाशं लोध्रतिन्दुकम् मधुगमाम्रं सर् मधुगमाम्रसर्जं च बदरं पद्मकेशरम् शिरीषबीजङ्कतकमे त्वक्वाधेन साधितं तैलं हन्दिप्रणां लेपाचिरकालभवानपि इति श्रीगारुडे महापुराणे आचारकाण्डे द्विनवत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् नैण्टि त्री हरिरुवाच पलाण्डुजीरगे कुष्टमश्वगन्धाजमोदकं वजात्रि कडुगञ्चैवलवणं चूर्णमुत्तमं ब्राह्मीरसैर्भावितञ्च सर्पिर्मधुसमन्वितं सप्ताहं भक्षितं कुर्यान् निर्मलाञ्चमदिं पराम् सिद्धार्थकम्बजाहि करञ्जम् देवदारुज मञ्झिष्ठा त्रिफला विश्वं शिरीश्वो रजनीद्वयम् प्रियङ्गु निम्बत्रिक्रडु गोमूत्रेणैव कर्षितं न सय माले पनञ्जैव तथा चोद्वर्दनं हितम् अपस्मार विश्वोन्मादशोषालक्ष्मीज्वरापहं भूदेभ्यश्च भयं हन्दिराजद्वारेषु योजनाद निम्बं कुष्टं हरिद्रे द्वे शिग्रुसर्षपजं तथा देवदारु पडोलञ्च धान्यं तक्रेण कर्षितं देहं तैलाकृत गात्रं वै नये दुद्वर्तते न च पामाकुष्ठानि नश्ये युकण्ठूं हन्दिजनिश्चितम् सामुद्रं सैन्दवं क्षारो राजिकालवणं बिडं कडुलोहरजश्चैवं त्रिवृत्सूरणकं समम् दधि गोमूत्रपयसा मन्दपावकपाचितम् बलाग्निवर्धकम् चूर्णम् पिबे दुष्णेन वारिणा जीर्णे जीर्णे दुभुञ्चदि मांस्यादिघृदमुत्तमम् नाभिशूलम् मूत्रशूलम् गुल्मप्लीहभवञ्च यद सर्वशूलहरम् चूर्णम् जठरानलदीपनम् परिणामसमुद्धस्य शूलस्य च हिदम्बरम् अभयामलकम् द्राक्षापिपली कण्डकारिका श्रृङ्गी पुनर्नवा शुण्डी जग्धा कासम् निहन्ति वै अभयामलकम् द्राक्षापाढा चैव विभीतकम् शर्कराया समम् जग्धं ज्वरहरं भवेद त्रिभला बदरं द्राक्षापिप्पली च विरेककृत हरीतकीतोष्णानीरलवणं च विरेककृत कोममत्याश्वमहिषघोशृगालाश्च वानराः विडालबर्हिकाकाश्च वराहोलूक कुक्कुडाः हंसयेषां च विन्मूत्रम् मांसम् वारोमशोणिदम् धूपम् दद्या ज्वरार्तेभ्य उन्मत्तेभ्यश्च शान्तये एतान्यौषधजादानि कथितानि उमापदे निघ्नन्दिताश्च वृक्षमिन्द्राशनिर्यथा औषधम् भगवन्विष्णुः संस्मृतो रोगनुद्भवेद ध्यादोर्चिदस्तुदो वा विनात्रकार्याविचारणा इति श्रीगारूडे महापुराणे आचारकाण्डे त्रिनवत्यधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् नैण्टि सर्वव्याधिहरं वक्ष्ये वैष्णवम् कवजं शुभम् येन रक्षाकृता शम्भो दैत्यान् क्षपयदः पुरा प्रणम्य देवमीशानमजं नित्यमनामयम् देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् भघ्नां्यहं प्रतिसरं नमस्कृत्य जनार्दनम् प्रदिमं सर्वं सर्वदुःखनिवारणं विष्णुर्मामग्रदपादु कृष्णो रक्षतु पृष्ठदः हरिर्मे रक्षतु शिरो हृदयं च जनार्दनः मनो मम हृषि केशो जिह्वां रक्षतु केशवः प्रादुनेत्रे वासुदेव श्रोत्रे सङ्घर्षणो विभू प्रद्युम्न ख्राणमनिरुद्धस्तु चर्म च वनमालीगलस्य अन्तं श्रीवत्सो रक्षतामथः पार्श्वं रक्ष मे चक्रं वामं दैत्यनिवारणं दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी उदरम् मुसलं पादु पृष्ठं मे पादुलाङ्गलम् ऊर्ध्वं रक्षदु मे शार्ङ्गं जङ्घे रक्षदु नन्तकः पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ सर्वकार्यार्थसिद्ध्यर्थं पादु मां गरुडः सदा वराहो रक्षतु जले विषमेषु च वामनः अडव्यां नरसिंहश्च सर्वधपादुकेशवः हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु सांख्याचार्यस्तु कपिलो धादु साम्यं करोतु मे श्वेदद्वीपनिवासी च श्वेदद्वीपं नयत्वजः सर्वान् सूदयदां शत्रून्मधुकैडभमर्दनः सदाकर्षद् विष्णुश्च किल्बिषं मम विग्रहाद् हंसो मत्स्यस्तथा कूर्म पादुमां सर्वतो दिशम् त्रिविक्रमस्तु मे देव सर्वपानि क्रन्दतु तथा नारायणो देवो बुद्धिं पालयतां मम शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् वडवामुखो नाशया तां कल्मष्रं यकृदं मया पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः दत्तात्रेयप्रकुरुदां सपुत्रपशुबान्धवं सर्वनायीन्नाशयतु रामपरशुना मम रक्षोघ्नस्तु दशरथिपादु नित्यं महाभुजः क्षत्रीन्हलेन हलेनमे हन्याद्रामो यादवनन्दनः प्रलम्बकेशीचानुरपूतना कंसनाशनः कृष्णस्य यो बालभावस्समे कामान् प्रयच्छतु अन्धकारतमोऽकोरं पुरुषं कृष्ण पिङ्गलम् पश्यामि भयसन्द्रस्त तदोऽहं पुण्डरीकाक्षमच्युदम् शरणं गतः धन्योऽहं निर्भयो नित्यं यस्यमे मे भगवान् हरिः ध्यात्वा नारायणम् देवम् सर्वोपद्रवनाशनम् वैष्णवं कवचम् बद्ध्वा विचरामि महीतले आप्रश्योऽस्मि भूतानां सर्वदेवमयोह्यार्थम् देवदेवस्य विष्णोरमिद तेजसः सिद्धिर्भवधु मे यदा यथा मन्त्रमुदाहृदम् योमां पश्यति चक्षुभ्यां यञ्चः पश्यामि चक्षुषा सर्वेषां पापदुष्टानां विष्णुर्बध्नादु चक्षुषी वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ते हि चिन्तन्तु पापान् मे मम हिंसन्तु हिंसकान् राक्षसेषु पिशाचेषु कान्दारेषु अडवीषु च विवादे राजमार्गेषु द्यूतेषु कलहेषु च नदी सन्धारणे घोरे सम्प्राप्ते प्राणसंशये अग्निचौरनिपादेषु सर्वग्रहनिवारणे विद्युत्सर्पविश्वोद्वेगे रोगे वै विघ्नसङ्कटे जप्य मे दजपे नित्यं शरीरे भयमागदे अयं भगवदो मन्त्रो मन्त्राणां परमो महान् विख्यादं कवजं गुह्यं सर्वप पापप्रणाशनम् स्वमाया कृतिनिर्माणं कल्पान्तगहनं महद अनाद्यन्दजगद्बीजपद्मनाभनमोऽस्तु दे ॐ कालाय स्वाहा ॐ कालपुरुषाय स्वाहा ॐ कृष्णाय स्वाहा ॐ कृष्णरूपाय स्वाहा ॐ चण्डाय स्वाहा ॐ चण्डरूपाय स्वाहा ॐ प्रचण्डाय स्वाहा ॐ प्रचणरूपाय स्वाहा ॐ सर्वाय स्वाहा ॐ सर्वरूपाय स्वाहा ॐ नमो भुवनेशाय त्रिलोकधात्रे इह विडि शिविडिशिविडि स्वाहा ॐ नमः अयोख्ये दये ये ये संज्ञा पयदैत्यदानवयक्षराक्षसभूदपिशाच कूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणामेकाहि कदव्याहि कत्र्याहिकचादुर्धलूतकीटकण्टक पूदनाभुजङ्गस्तावरजङ्गमविषदी नामिदं शरीरं मम पद्यं त्वं गुरु प्रकोड लफड विकड स्फुडस्फुडस्फुडप्रकोडलफड पूर्वदो रक्षदु ॐ है है है सहस्रकाल समाहदो जय पश्चिमदो रक्ष ॐ निवि निविप्रदीप्तज्वलनज्ज्वलाकार महाकपिल उत्तरदो रक्ष ॐ विलिविलि मिलिमिलि गरुडि गरुडि गौरी गान्धारि विषमोह विषमविषमां महोहयदुःस्वाहा दक्षिणदो रक्ष मां पश्य सर्वभूतभयो भद्रवेभ्यो रक्ष रक्ष जय जय विजयते न हीयदे रिपुत्रा साहङ्कृतवाद्यदो भयनुदभयदो भयं भाया दिशत्युच्यदाम् तदुदरमखिलं विशन्धुयुगपरिवर्तसहस्रसङ्ख्येयोस्तं हंसमिव प्रविशन्दिरश्मयः वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः सर्वज्वरान् ममघ्नन्तु विष्णुर्नारायणो हरिः युधि श्रीगारुडे महापुराणे आचार्यकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॐ गरुडपुराणम् आचारकाण्डम् अध्यायं हण्ड्रेड् अण्ड् नैण्टि फैव् हरिरुवाच सल्कामप्रदां विद्यां सप्तरात्रेणतां शृणो नमस्तुभ्यं भगवदे धीमहि प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये त्वद्रूपाणि च सर्वाणि तस्मात् नमो नमः हृषिकेशाय महदे नमस्ते नन्दमूर्तये यस्मिन्निदं यतश्च इदत्तिष्ठत्यग्रेऽपि जायते मृण्मयीं वहसिक्षोणीम् तस्मै ते ब्रह्मणे नमः यन्न स्पृश्यन्तीन्न विदुम् मनो बुद्धीन्द्रियासवः अन्तर्बहित्वं शरसि व्योमतुल्यं नमाम्यहम् ॐ नमो भगवदे महापुरुषाय महाभूतपदये सकलसत्त्वभाविव्रीडनिकरकमलरेणुत्पलनिभधर्माख्य विद्यया चरणारविन्दयुगल परमेष्टिन्नमस्ते चित्रकेतोश्च विद्यया 196 हण्ड्रेड् अण्ड् नैन्टिसिक्स्